ृष्टुभम् पुनम् भवतीनाम् रतम् नाम, नाम। पतिम् वो अज्ञानाम् धेनो नामेषुध्यसि स्य सूदोहसः सोमम् श्रीनन्दिकृष्णायः जन्म देवानाम् विषस्त्रिष्वारोचने जिवः अभिप्रगोपादिम् जिरेन्द्रमर्चयता विजे सोनम् सत्यस्य सत्पादिम् आहरजस्य सज्जिरेषिरथिबर्हिषि यत्राभिषम् न वामहे इन्द्रा जगाव आशिरम् दु दुह्रे वज्रिणे विदत। यत्सीमुपह्वरे विदत्प्रध्नस्य विषमम् गृहमिन्द्रश्च गन्वहि मध्वीत्वा स देवहितरिसप्तसख्युः पदे अर्चदप्राचदप्रियमेधासो अर्चत अर्चम् तपत्रका बुधपुरन्नर्चत अवस्वरादिगर्गरो गोधापरीजनिश्वरे लिङ्गापरीजनिष्कददिन्द्राय ब्रह्मोऽद्वैतम् आयत्वम् तेङ्गः सुदुघा अनपस्फुरः अवस्फुरम् गर्भाय तसो ममिन्द्राय पादवे अपादिन्द्रो अपारग्निर्विश्वे देवा मत्सर क्षत्तमापो अभ्यानोरतभत्सम्व सुदेवादिवरुणयस्य ते सप्त सिन्धवः सूर्यम् सुश्रिरामीव युव यधीम्पानयत्सुयुक्ता उपदासुषे तक्वो नेतारपूर्वपमायो अमुचल अतिदो शक्रवोह दरिन्द्रो विश्वादिद्भुषाः पच्यमानम् वरो गिराकोधि तिष्ठन् नवम् रथम् सर्वक्षण्महिषम् मृगम् पित्रे मात्रेऽपि भुक्लम् आदुषिषिप्रदम्बते रथम् तिष्ठा हिरण्ययम् अथ ज्योक्षम् स चे बहि सहस्रपादमर्षाम् स्वस्तिकामाने मासते सङ्खेच्छा न उपस्वराजमासते अर्थम् चिदस्य सुदीकम् यदेतभार्तयम् दिदावने अहप्रत्नस्यौकौविजमेधासयेषाम् क्तपरिषो हितप्रजसा सो राजा चर्षणीनाम् जाता रथे हिरद्रीगुः चेष्टो योग्रहा इन्द्रम् तम् सुम्भुरुहन्मनवधे यद्विराभि धत्तरि अस्रः प्रतिधायि महो दिवेन सूर्याः न कष्टम् कर्मणा न सञ्जस्यकार सदा वृधम् इन्द्रम् न यज्ञैर्विश्वकोर्दमृभ्यसमधृष्टम् विष्णो जसम् म्भेन भोजायामाने अनो न बुद्ध्या महा क्षामो अनो न गुः यद्या वा इन्द्रदयशतम् शतम् भूमेतस्यो नत्वा वज्र्यम् सहस्रम् भूर्या अनु न जातमष्टरोदसी आपथमहि ना्यामृषन् स्माघवान् गोवाजिव्रजे वज्रिम् चित्राभिरुदिभिः असीमदेवावजिषम् दीर्घाजोमर्त्या एतग्वाजि ज्यजेतासा युयोजते हरीन्द्रो युयोजते तम्भो महो महायविन्द्रम् दानाय सक्षणि ो गाधेषु चारणेषु हव्योपाधेष्वस्ति हव्याः उदोषु नो वसो महे मृषस्वशूरराधासे उदोषु भक्ष्यैमाघवन्मघट्टमुदिम् महे वन्देन्द्रवालिगोलिकम् वसि मध्येव स्मसो हरैः अन्यव्रममानुषमयज्वा नमदेवायम् अपस्वसखादुधिवीरपर्वतस्वध्ना यदस्यम् पर्वतः सन्न इन्द्रासाम् हस्ते सविष्ठदावने न्न सङ्ग्रेभाजा स्म यर्भिः सङ्गृभाजा स्म योः सखायः क्रतोमिच्छत कथा राधामसरस्य उपस्तुतिम्भोजः सूर्योरह्रयः कर्णगृह्या मघवा सौरदेव्यो वत्सन्नस्त्रिभ्यानयत् अजाम् सूर्यर्नधातवे अन्नो अग्ने महोभिः पाहि विश्वस्यागे उदद्विषो मध्यस्य न हि मन्यः पौरुषे यीशे हि स नो विश्वेभिर्देवेभिरोर्जो न पाद्भद्रासोचे रेहि विश्ववाहारम् न तमग्ने अरातयो मत्तम् युगन्तरायः यन्त्रायासेधा स्वांसम् विप्रमेधसा त्वम् विप्रमेधसादामग्ने हिनोषिधनाय स तभूति गोषु कन्ता त्वम् व्ययम् पूर्ववीरमग्ने दासुषे मत्याय प्रणोनयमस्योच्छो मापरादाघायते जातवेदः दा हे मर्ताय अग्नेमाकृष्टे देवस्य रातिमदे भो युजोत त्वमीशिषेवसूनाम् स नोभस्व उपमास्योर्जो नपान्माहीनस्य सखेवसो जतृभ्याः अदच्छानः शीरसोजिम् विरोऽयम् सुदर्शतम् अदच्छा जिज्ञासो नमासा बुभूवसुम् पुरप्रशस्तमूतये अग्निम् सोनम् सहसो जातवेदम् दानाय जितायो भूतमृतामर्ध्येष्वा होता मन्त्रतामोभिः अग्निम् वो देवयजाग्निम् प्रयज्यत्वरे अग्निम् देशप्रथमाग्निमर्वत्यग्निम् क्षैत्राय साधसे अग्निषाम् सख्ये ददातु नयीशेजो वार्याणाम् ग्निम् लोके तन ये सीवहे वशुंसन्तम् तरूपा अग्निश्वासे गाथाभिः श्रीरसोदिषम् अग्निम् राजे पूर्वमेढ श्रुतम् नोऽग्निम् शोधीतये अग्निम् वेरोध वैरोग्ने अस्यग्निम् श्रीरोश्च दातव्ये विश्वासुभिक्ष्म विदेवाव्यो भुभग्वस्त्वरुऋषूणाम् अविष्टेणोध्वमागमदध्वर्युर्वनते गुणाः विद्वानस्य प्रशासनम् निदिग्मभ्या अंसुंसि दद्धो नामनावधि दृषारोहस्य सख्यम् अन्तरिच्छन्ति तम् जने रुद्रम् परो मनीषया गृभन्ति जिह्जासम् याम्यजीतपेधनुर्वजोधारुहध्वनम् त्रिषदम् जिह्वाधी चरन् वत्सोषन् निरैदातारन्दते अम्यम् पुरोऽस्य जन्महद्यावद्योजानम् लृहे थस्य ददृशे दुहन्ति साप्तैः कामपाद्वा पञ्च सृजतः ये सिंहोरथिस्वरे आदशभिर्विवस्वदयिन्द्रः कोशमजुच्यवीत् खेदाया त्रिवृता शिवः परित्रिधातोरद्वरम् चोर्निरेति न वीरीयसी मध्वाहोदारो अञ्जले चिन्तन्ति नमसा पदमुच्चाचक्रम् परिज्ञानम् नीचीनभारमक्षीतम् अभ्यारमिद्रजोनिषिक्तम् पुष्कारे मधु अपदस्य विसर्जने गावगुपावतावतम् महीयज्ञस्य रप्सुदा उभा्यजा सुतेषं रोदस्योरभिश्रियम् प्रसादधीतवृषभम् ते जानदस्व मोज्ञा अंसम् वत्सोनमातृभिः इशो न सन्तजामिभिः उपस्रग् वत्स दः कृपते तरुणम् दिवि इन्द्रे अज्ञानभस्वाः अदृक्षद्भिप्युषीमिषमूर्जम् सप्तपदी मिः सूर्यस्य सप्त रश्मिभिः सोमस्य मित्रावरुणोदीता सूरा ददे भेषजम् उतोऽन्नस्य यत्पदम् हर्यतस्य निधान्यम् परिद्याम् जिह्वाजादनत् उदीरादामृतायते युञ्जातामश्विना रथम् अन्तिषद्भोदु वामवाह निमिषश्चिद्यवीयसारथेनायातमश्विना अन्तिषद्भोदु वामवाः उपस्त्रिणीतमत्रामेन घर्ममश्विना अन्तिषद्भो तु वामवाः गुहस्तः गुहजग्मथुः गुहस्येनेवापेदथो अन्तिषद्भो दुबामवाह य करि करिः चिच्छुश्रूजातमिमम्भवम् अन्तिषद्भोदुबामवाह अश्विनाजामभूतमाने तिष्ठम् जाम्याप्यम् अन्तिषद्भो दुबामवाह त्राजे गृहम् क्रे मतम् युपमश्विना अं द्विषद्भो दु वामवाहे अग्निमात गो मदते वल्कत्राय अं द्विषद्भोदु वामवाह प्रसप्तवध्रिलाससाधारा भग्नेरसायत अन्तिषद्भो दु इशागतम् ऋषण् वसु शृणुतम् माजिमम् ह्रवम् अन्तिषद्भोदु वामवाह इदम्बाम् पुराणवर्जरतो अन्षद्भोदु वामवाह समानम् वाम् सजात्यम् समानो बन्धूरशिला अन्तिषद्भोदु वामवाह यो वाम् रजासी अन्विषद्भूतु वामवाह आनो गव्येभिरश्वैः सहस्रैरुपागच्छतम् अन्विषद्भूतु वामवाह मा नो गव्येऽभिरश्वयैः अरुणप्सूरुषाः भूतगर्जोतर्वृतावदी अन्तिषद्भो तु वामवाह अश्विनासु विशाखा सद्वृक्षम् परसुमा एव अन्तिषद्भो तु वामवाह पुरन्नष्णमारोजकृष्णयाः बाधितो विशा अन्षद्भो तु वामवाह विशोऽपीशो भो अधितिम् वाचयन्तः पुरप्रियाम् अग्निम्भो दुर्यम् वदुषे दोषस्य मन्मभिः किम् जनासो हविष्मन्तो मित्रम् न सर्पिदाशुनिम् प्रशंसम् दिप्रशस्थितिभिः अन्याम् सञ्जातवेदसंयो देवताद्युज्यता हव्यान्यैरयद्य आगन्मवृत्रहन्तमुष्टमग्निमानवम् यस्य श्रुतर्वा बृहन्नाक्षो अनीकयेधे अमृगम् जातवेदसम् चिरस्तमाम् धिदर्शतम् मृतः वनमीट्यम् स बाधोऽयम् जना इमेम् भव्येऽभिरीडते जुह्वा नाशो यतश्रूचः इयम् धेनव्यासीमतिरग्ने अथा यस्मदासुजा रसुक्रो मो रस्मादीथे सा हे अग्ने सन्द्रमाचनिष्ठा भवतु प्रिया तया भग्धस्व सुष्ठुतः सा द्युम्नैर्द्युम्नि बृहदोपस्रव शिश्रवाः धीतवृत्रूर्ये अश्रमिद्वाम् रसत्राम् रन्न सपदिम् यस्य श्रवाम् शिर्वाथपन्यम् पन्यम् च कृष्टजाः यन्द्वा गोपवनो गिरा सपावकश्रुधीहवम् यन्द्वाजनाः शरीरा ते सपाधो वाच सातये सभोधिरतूरे अहम्भोपान आर्क्षे सर्वाणिमदच्छुति श्रद्धाम् श्रीवस्तु काविनाम् वृक्षा शीर्षा माम् चत्वार आसभस्सपिष्ठस्य द्रविप्लवाः सुरथासो अभिप्रजोपक्षण्वजो न तुयम् सत्यमि त्वामहे न जिपरुष्ण्यवदे दिशम् नेमा भो अश्वदाता रस्वभिष्ठादस्तिमर्त्याः दिक्षायि देवभूत माम् अश्वाग्नेरथीरीव पूर्वः सरः उत नो देवदेवा गच्छावोजो विदुष्टरः श्रद्विश्वार्याकृधि त्वम् हयद्यष्टसहस्रो न बाहुतज्ञिजोभुवाः अजमग्निः सहस्रिणो वाजस्य सजिनस्पतिः ूर्धारवीराजीनाम् तम् मेमि मृभवो जसा नमस्वसहूदिभिः मेदीयो यज्ञमङ्गिरः तस्मै नूनमभिद्या वेवाचावीरूपनित्यया कृष्णे शोधस्व सुम् कमश्वितस्य सेनायाग्नेरपादक्षसः अनिङ्गोषस्तरामहे मानो देवानाम् विशप्रस्रादीरीपोस्राः कृशम्नः सुरघ्नाः मानः समस्य दूढ्या अम्बरि द्वेषतो अम्भतिः ओर्मिर्ननाभवाबीले नमस्ते अग्नपो जे गृह्णन्ति देवकृष्टयाः मीरमित्रामर्दय उत्सुनो गविष्टये संवेशीषो रजम् पुरोकृदुरुणस्कृधि मानो अस्मिन्माहाधने परा भग्भारभृत्यथा संवर्घम् संरजिम् जय अन्यमस्मद्भिज हिजवर्भे सिषक्तु दुत्सुना नो अमाभ यस्याजोढन्नमस्विनः समीम दुर्मखस्य वा सङ्घेदग्निर्वृधावधि परस्याधिसम्वतो वराम् अभ्यातर याहवस्मिता विद्वाहिते पुरावयमग्ने पितुर्यथाभसः धादे सुम्नमीमहे यमन्वमालिनम् भुमजेन्द्रमीषानोजसा मरुत्वम् तम् न भृञ्जसे अयमिन्द्रो मरुत्सखाभिवृत्रस्याभिरच्छिराः वज्रेण सदपर्वणा वावृधानो मरुत्सनेन्द्रोऽभिवृत्रमीरयत् श्रितं समुद्रिया अपः अजम् रजेन वाजिलम् स्वर्मरुत्वादितम् इन्द्रेण सोमापीतये मरुत्वम् तमृजेणमोजस्वन्दम् विरप्सिनम् इन्द्रम् गेर्भिर्हवामहे इन्द्रम् रत्ने न मन्ना मरुत्वम् तम् भवामहे अस्य सोमस्य गीतये मरुत्वाङिन्द्रमे भक्तिभा सोमम् सदक्रतो अस्मिन् यज्ञे पूनुष्ठुत उभेदिन्द्रहृत्ता सुः सोमासोमग्रिवः हृदासूयन्तः पिभेदिन्द्रमरुत्सखादम् सोमन्दिविष्टिषु नवोजसा उद्तिष्ठन्नोजसा सह पीत्वे अवेपयः सोममिन्द्रचमूसुतम् अनत्वारोदसे भुभे क्रक्षमाणमकृपेताम् इन्द्रयद्दस्युहा भावः वाचाभष्टापादिमहम् नवस्रग्मृतस्मितम् इन्द्रात्वरितन्वम् ममे यज्ञानो न सदग्रविर्मातरम् कुग्राहेह शृण्डिरे आदीन्द्रवस्य भ्रवीयौनम् ते समित्ता सन्तु निष्ठुताः समित्रामृद्रहाखि दक्षे अगाखेदया प्रवृद्धोदः स्युभा प्रतिधा बीवत्साकम् सरांसि धृंसतम् इन्द्रः सोमस्य कानुका अभिहम् धर्ममात्रबुध्नेषु रजस्वा इन्द्रो ब्रह्मभ्यजद्विधे निराविद्यद्गिरेभ्या धारयत्पक्वमोदनम् इन्द्रो बुन्दम् स्वातम् शतब्रध्वजिषुस्तव सहस्रपह्जे कचित् यमिन्द्रेयुषम् तेन स्तोत्रभ्यः भो नादिभ्यो ना अवे सद्यो जातर्भुष्ठिरा एषा सौत्नानि ते कृता वरिशिष्ठानि परीयसा धारजः विश्वेत्ताविष्णुनाभरदुरक्रमस्पेषाक्षीरपाकमोदनम् वा राहमिन्द्रे मुखम् विभिक्षम् ते सुकृतम् सोमजन्तनः साधुर्बुन्दो हिरण्यजाः ुभा ते बाहूरण्यासु संस्कृतर्दूवेति ऋदूधारोलासन् दो अन्धसहस्रमाभर शता च शूरगोना आनोभरव्यञ्जनम् गामस्वमभ्यञ्जनम् स चा मना हिरण्यजा ोभाभारषेवसो न किम् ऋषिगैलसुरा न सुदाभूत नान्यत्वच्छूरबाघताः न किमिन्द्रो निरर्तवेन शक्रः परिसक्तवे विश्वम् शृणोति पश्यति त्या नामदब्धो निचीकीषते पुरा निश्चीकीषते न त्वयत्वर्णमुदरम् पुरस्यास्ति विधतः सोमवाग्नाः एव निषङ्गता विश्वा च सोमसौभागा सुदात्वपरिहृदा युर्ममकामो गव्युर्भिरण्ययोः वामस्वयुरेषु ग्राहमाशसाहस्ते तात्रदे दिनस्य वामघन् सम्भृतस्य वामूस्य काशिनाः अयम् कृभीतो विश्वजिदुर्भिदि सोमाह ऋषर्विप्रः काव्येन अभ्यो नो दियन्नग्नम् हिरग्दि विश्वं यत्पुरम् प्रेमन्धक्षिण्यः श्रोणोऽभूत् त्वम् सोमदनुगृध्योद्वेषोऽभ्योऽन्यकृतेभ्यः पुरुयन्तासिवरोधम् त्वम् चित्ते तवदक्षैर्दिव आपृथिव्या <idée> ी रघस्य जिद्वेषाः अर्थिनोयम् दिशेदर्थम् गच्छामि ददृषो रातिम्ृष्यदः कामम् इलज्वोर्यम् नष्टमुदीव्रतायुमीरयत् प्रेमायस्तादीरदीर्णम् सुसेवो रावृणयागुरद्रक्तक्रदुरभातः भवानस्वसंहृदे मानस्सोमसं बिजो मा विलीभिषता राजन् मानोहार्दिक्विषावधी अभयत्स्वे सधस्थे देवानाम् दुर्मदीरीक्षे राजन्नपद्भिढः सेधमेढपश्रुतः सेध अन्यम् बलाकारम् अधिकारम् सह्रतोय यो नश्च स्वपुराभिचामृद्धो वाजसाधये स त्वन्न इन्द्रमृलयजोदानस्वन्वानस्या विदेतासि कुविस्विन्द्रणः सखाः इन्द्राक्षणो रथमपश्चाच्चित्सन्तावद्विवः पुरस्तादेन मे कृधि हन्तो नि किमासते प्रथमम् नो रथम् गृधि उपमम् वा जयिश्रवाः अवा नो वाजयुम् रथम् सुकरम् जय किमित्परि अस्मान्सुजिगुषस्कृति इन्द्रनिक्यः स्वभूरासि भद्रादति निष्कृतम् यम् धीर्वृत्ति यावति मासेमध्याभा गुर्वीकाष्ठा हितम् धनम् अपावृक्ता रत्नजाः तुरीयम् नाम यज्ञियम् यदाकरस्तदुश्मसि आदितमिन्नमोहसे अमी वृहद्भो अमृता मन्दिरे गद्यो देवाबुदयाश्च देवी तस्मातर्कणदप्रसस्तम् प्रातर्मक्षोधियावधुज्जगम्यादि मादूना इन्द्रक्षुवन्तम् चित्रम् लाभम् सङ्गृहाय महाहस्ती दक्षिणेन विद्वाहित्वा तु वि कूर्मिन् तु विदेष्मन्तु वि मार्घम् तुविमात्रमवोभिः नहि त्वा शूरदेवानमत्ताशोदित्सन्तम् भीमन्नगाम् वारयन्ते एतोऽन्विन्द्रम्स्तवामेषानम् स्तोषदुपाकाशिषच्छ्रवत्सामगीयमानम् अभिराधाजुगुरत् आनो भरदक्षीणेनाभिषव्येन प्रमृषा इन्द्रमालो वसोर्निर्भाक् उपक्रमस्वाभरधृषदाधृष्णो जनाधोष्टरस्य वेदा ेन्द्रजभुनुदे अस्ति वाजोभिप्रेभिः सनि त्वः अस्माभिः सुदम् सनुहि सद्योजुवस्ते वाजाः अस्मभ्यम् विश्वश्चन्द्राः वशेष्टमक्षूजारन्द्वे भद्रन्दो अभिवादयमनाः ओ हरिः ओम् आप्रद्रवपरावतो रावतश्च वृत्रहन् मध्वप्रजप्रब्रह्मणि धीव्रा सोमा सा गाहि सुतासो मातयिष्णवाः विभाजनिर्गसो इशामन्दस्वादुते रम्बराजमन्यवे भुवर्तन्द्रसंहृदे आत्मसत्रभागाहिन्यो उत्थानीहूयसे उभमे दिवध्यायमद्रीभिः सुतो गोभिः श्रीतो मदायकम् रसोमायन्द्रहूयते इन्द्रश्रुदिषु मेघपभस्तेषु दस्य गोमादः विम् तृप्तिमश्विहि येन्द्रमसेष्वा सोमश्चमूषुते सुतः विभेदस्य त्वमीशिषे यो अप्सु चन्द्रमायिभ सोमश्चमूषु दृशे विभेदस्य त्वमी शिषे यम् ते सेनः पराभरत्तिरोरजांस्य स्मृतम् विभेदस्य त्वमीहे दृढे देवानामि तव वो महत्मदारिणीमहे भजम् कृष्णामस्मभ्यमूतये तेन सन्तु यशस्वधाभरो मात्रो अर्यमा यथा सेदशः िता पुरुनौभिरपो न परुषस यूयमृतस्य रथः वामम् नो अस्पर्यवन् वामम् वारुणशास्यम् वामम् ज्यावृणीमहे वामसहितशईशानासोरिषादः नेमाश्रित्य अघः शयत् अयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना देवावृथाय भूमहे अधीन इन्द्रैषाम् विष्णो सजात्यानाम् चितामरुतो अश्विना रभ्रादृत्वम् सुदानवो हरद्विदासामान्या मा दुर्गर्भे भरामहे योऽयम् धिष्ठाधो दानभेन्द्रज्येष्ठा अभिज्ञः अथा चिद्वुत ब्रूहे प्रेष्ठवम् वो अजीथम् स्तुषे मित्रमेव प्रियम् आज्ञिम् रथम् नवेद्यम् कविमीह प्रचेदशम् देवासो अधद्विदामर्त्येष्वा दधुः संयाविष्टदासु शोरेण पाहि सुराः रक्षातोकमुदत्मना अजाते अग्ने अङ्गिरपूर्जो न पातुपस्तुतिम् पराय देव मन्यवे दासे मकस्य मनधायस्य सहसो यो कदूलिलम् नमः त्वम् हि नः करो विश्वा अस्मक्षणम् सुः गिराः कस्य नूनम् वरीणसोधियो जिन्वसि दम्भते गोढाधारस्य ते गिराः तम् अर्जयन्त सुक्रतुम् पुरो यावानवाजिषु सेषु क्षयेषु क्षेति क्षेमेभिः साधुभिन्न गिर्यम् घ्रन् दि हन्ति यः अग्ने सुवीरा ये धते आमे नवम् नागच्छुगम् अध्वसोमस्य भीतये इमम् मे सोममस्वि नैवम् मे श्रुतम् हवम् अध्वस्सोमस्य भीतये अजम् वाङ्कृष्णो अर्जिनाहवदेवाजिनीवसु अध्वः सोमस्य बीजेः श्रुणकम् जदर्हवम् कृष्णस्य स्तु भतो नारा अध्वः सोमस्य बीजेः छरिर्यम् दमदाभ्यम् निप्रायस्तु भते नारा मध्वः गच्छाश गृहमिच्छास्तु भवतो अश्विना मध्वस्तोमस्य बीजयेः युञ्जासाम्रासभं रथे भीढङ्गे मृगन्वसु मध्वस्वामस्य बीजये त्रिबन्धुरेण त्रिवृतारसेनाजातमश्विना मध्वस्वामस्य बीजयेः िरोः सत्याश्वप्रावम् युवम् मध्वः सोमस्य पीतये उभाभिरजामयो भुवो भालक्षस्य वचो बभूवधूः माम् विश्वकोहवचेतनु गृधे मानो मि यौ वोष्टम् अथ नूनम् वानामुपस्तवद्युवन्धियम् ददधर्वस्य युष्टये वा नो त्रिजेमानो दिवौष्टम् सख्यमोचम् युवा युष्मापुरुभुजे ममे धगुम् विष्टाप्ये धरधर्वस्य इष्टये श्वको हते तनु कृते मानो वियोष्टम् सख्यामोचतम् उदाम् जनदा मे जीषिणम् दूरे चित्सन्तमवशे हवामहे यश्चाल्पयितुर् मानो विोष्टम् सख्यामोचतम् देवः स विदा समायतऋतस्य शृङ्गमुर्विजा विपेदाहमहि चित्रो मानोऽष्टम् सख्य मोचतम् युम् नीवां स्तोमो अश्विनाकृनिर्न सेखागतम् प्रियो नारापातम् गौरा बि वैरीणे म् घर्मम् मधुमन्तमश्विना बर्हि सीतदम् नरा तामन्दसानामनुषो दुरो न आदिपादम् वेदसा भजाः आभाम् विश्वाभिरुचिभिः प्रियमेधा अभूषत तामर्तिर्यादोपाहृषो जुष्टम् जज्ञन्ति विष्णुषु विपादम् सोमम् मधूमन्तवश्विना बर्हिषीबरम् सुमत् आवावृतानागुपा सुष्ठतिम् दिवो गन्तम् गौराविवेरीनम् नं आ नूनम् जातवश्विना स्वेभि कृषतप्सूधिः दश्रा हिरण्यवर्तनी शुभस्पति शाकम् सोमा मृता वृथा ि वाम् हवामहेमि पण्ड्यभोभिप्रासोपाजसादये काल् गोदशाम् ससाधिया स्पीना दृष्ट्यागतम् नमम् वो दस्मृदीश हम्बसोऽर्मन्दान मन्थसः अभिवत्सन्न स्वस रेषुधेन वजीन्द्रम् जेर्भिर्न वामहे योक्षम् सुदानम् तवेषीभिरावृतम् गिरिन्नपूर्वभोजसम् क्षुमन्तम् वाजम् सचिलम् सहसृणम् मक्षो गोमन्तमीमहे न त्वा गृहन्तो अद्रजोपरम् देन्द्रवीलवा यदि सेवावदेव सुरष्टदा मे गादिते ोऽद्धा चिक्रत्वासवसोदधंसनाविश्वा जाताभिमज्मना आत्वायमर्कभूतये वर्ततियम् गोदमाहजीजनङ्गहिरिक्षवोजसादिवो अन्ते बृहस्पदि गत्वा विव्या जगज इन्द्रपार्थिबवनस्वधाम्बावक्षिसा श्चर्मघवन्मघस्य देशर्दासुषेधस्यसि अस्माकम्भोध्युजतस्य चोदितामम् ज्येष्ठो वाच सादये बृहदिन्द्रायगाय धमलूतो वृद्धहन्तामम् येन ज्योतिरजानयन् नृता वृथो देवम् देवाय जागेवी अपाधमदभि सतिरसर्ति वार्जिम्नाभवत् देवास्त्रा इन्द्रसर्ख्याय येमिरे बृहद्वादो मरुद्गण न व इन्द्राय बृहदे मरुतो ब्रह्मार्चतम्भगतिवृत्त्रः सदक्रतुर्वज्रेण सदपर्वणा अभिप्रभ रथृषधृषन्वनश्रवश्चित्ते असद्बृहत् अर्णन्त्वापो जामि मातरोहनो वृत्रम् दजास्व यज्जायदा अपूज्यमघवन्वृत्रहत्यायिवीम प्रदयस्तब्ना बुलज्जा यज्ञो आजाय ददर्कबुदः कृधिः तद्विश्वामभिभुरधियज्जातम् यच्छन्तम् आमासु पक्वमैराजासूर्यम् गोहयो दिवि धर्मन्न सामन् भवदातु रक्तभर्जक्षम् गर्वनसे बृहत् विश्वाशुभव्ययिन्नः समत्सु भूषतु उपब्रह्मानि समनानि रत्नः परमज्जामः त्वम् दाताप्रधो राधासा मत्स्यसी सत्ययीसा न कृत सुविजृम्नस्य युज्या वे नेमहे पुत्रस्य सप सो महः ब्रह्मा चेन्द्रगिर्वणः क्रियन्ते अनादिग्भुधा इमाजोढस्वहर्य स्वयोजनेन्द्रजाते अमन्महि त्वम् हि सत्यो मघवन्ननानतो मित्रा भूरिम् व्रिञ्जसे सर्वम् द्रविष्टवज्रहस्तदा सुषेर्वान्तम् इन्द्रजसाहस्रजीषिष पदस्पते त्वम् वृत्राणि हंस्य प्रतीकयितने धृता तमोद्वारो नमासुरप्रदेत सम्प्राधो भागमी वेमहे महे भगत्य शरणादा इन्द्रप्रदेशु अस्मान् कन्या आवारा यती सोममपि श्रुतावीदत् हस्तम्भरम् च ब्रवीदिन्द्राय शुनवयित्वा शक्राय शुनवयित्वा असौ यजेभीबी रघो गृहम् गृहम् इमम् जम्भासुतम् विभधारावन्तम् करम् पिनाम पूपवन्तमुक्थिनम् आ चनत्वाशि यच्छ मोधी च नत्वादेमासि उभिदिग्विषो यतीरिन्द्रेण सङ्गमामहै जिवानित्रीणि विष्टपातानीन्द्रविरोहय शिरस्तदस्योर्वरामादिगम् बुपोदरे तन्मा अम्मा यच्छिरः सर्वातारो भ्रीधि खेनधस्य खेन सखेयुगस्य शतक्रतो अपालामिन्द्रिष्वोऽप्यते नोः सूर्यत्वचम् ओ